गरुडपुराणम् आचारकाण्डम् अध्यायं 116 अण्ड् सिक्स्टीन् ब्रह्मो वाच प्रधानिव्यासवक्ष्यामि हरिर्यायि सर्वदो भवेद सर्वमासर्क्षतिथिषु वारेषु हरिरर्चितः एकभक्तेन नक्रेन उपवासफलादिना ददादि धनधान्यादिपुतराज्य जयाधिकम् वैश्वानरप्रतिपदि कुबेरपूजितोर्धदः उपोष्य ब्रह्मप्रतिपद्यर्चितश्रीस्तथाश्विनी द्वितीयायां यमो लक्ष्मीनारायण इहार्थदः तृतीयायां त्रिदेवाश्च गौरी विघ्नेशङ्कराः चतुर्ध्यां च चतुर्व्यूहपञ्चम्यामर्चितो हरिः कार्तिकेयोरविषष्ठ्याम् सप्तम्यां भास्करोर्धदः दुर्गाष्टम्यां नवम्यां च मातरोध दिव्योर्धदाः दशम्यां च यमश्चन्द्र एकादश्यामृषीण्यजेद द्वादश्यां च हरिकामत्रयोदश्याम् महेश्वरः चतुर्दश्यां पञ्चदश्यां ब्रह्मा च पितरोर्धदाः अमावास्याम् पूजनीया नक्षत्राणि जयोगाश्च पूजिताः सर्वदायकाः इति श्रीगारूढे महापुराणे आचारखण्डे तिथ्यादिव्रतवर्णनं नाम षोडशोत्तरशततमोऽध्यायः ओम् अध्यायम् हण्ड्रेड् अण्ड् मार्गशीर्षे सिदे पक्षे व्यासां नङ्गत्रयोदशी मल्लिकाजं दन्तकाष्ठं धृतूरैः पूजयेच्छिवम् अनङ्गायेदि नैवेद्यं मधप्राश्याधपौषके योगेश्वरं पूजये च बिल्वपत्रैः दन्तकाष्ठं चन्दनादिनैवेद्यं कृसरादिकम् मा के नडेश्वरायार्च्य कुन्दाैर्मौक्तिकमालया प्लक्षेण दन्तकाष्ठं च नैवेद्यं पूरिकामुने वीरेश्वरं पाल्गुने तु पूजयेत्तु शर्करा दन्दधावनं चैत्रेयजेत्सुरूपाय कर्पूरं प्राशयेन्निशि दन्दधावना डजं नैवेद्यं शष्कलीं दधेद वेशाखे शाखे शोक्रपुष्पकैः महारूपाय नैवेद्यम् गुडभक्तम् पुट्टम्बरम् दन्तकाष्ठम् प्राशयेच्च ददे जदी फलम् तथा प्रद्युम्नम् पूजये ज्येष्ठे चम्पकैर्मिल्वचम् दशेद लवकारा तद्धा षड्ढि उमा मदतिशासनः अगुरुं दन्तकाष्ठं च तमपामार्गकैर्यजेद श्रावणे करवीरं च शम्भवे शूलपाणये गन्धाशनो हृदाद्यैश्च करवीरजशोधनम् सद्योजादम्भाद्रपदे बकुलहैः पूपकैर्यजेत् गन्धर्वाशो मदनगमाश्विने च सुराधिपम् चम्पकैस्वर्णवायादो जिन्मोदकसम्प्रदः पादिरम् च कार्तिके रुद्रमर्चयेद भदर्यादन्तकाष्ठाम् च मदनो शिवमर्चयेद प्रतिमुक्तमनङ्गं जस्वर्णमण्डलसंस्थितं गन्धाध्यैर्दशसाहस्रं तिलव्रीह्यादि होमयेद जागरं प्रभित्याभ्यार्च प्रभृत्याभ्यार्च प्रदिभ्याप्रभृदभ्यार्च्यवेदयद द्विजायशय्याम् पात्रं च छत्रम् वस्त्रमुपानहौ गान् द्विजम्भोजयेद्ध्याकृतकृत्यो भवेन्नरः एतदुद्यापनं सर्वं प्रदे शुद्ध्येव मीदृश्यम् फलञ्च श्रीसुदारोग्यसौभाग्यस्वर्गदम् भवेद इति श्रीगारुडे पूर्वखंडे प्रथमाशाख्ये आचारकाण्डेण त्रयोदशी वृद्धं नाम सप्तदशोत्तरशततमोऽध्यायः ओम् अध्यायम् हण्ड्रेड् अण्ड् एय्टीन् ब्रह्मोवाच व्रतम् मार्गशीर्षे सिदे पक्षे भव्याशी समुपोषितः द्वादश्याम् पूजयेद्विष्णुम् दद्यान्मास चतुष्टयम् पञ्चव्रीहि युदम् पात्रम् विप्रायेदमुदाहरेद सप्त जन्मनि हि विष्णो जन्मया हि त्वत्प्रसादेन तदखण्ड हास्तु मे यथाखण्डं जगत् सर्वम् त्वमेव पुरुषोत्तम तदाखिलान्यखण्डानि वृत्राणि मम सन्धिवै सकृपात्राणि चैत्रादौ श्रावणादौ कृदान्विदान् व्रत कृद्वदपूर्णस्तु स्त्रीपुत्रस्वर्गभाग्भवेध इति श्री गारूडे महापुराणे आचारकाण्डे खण्डद्वादशीव्रतकथनम् नाम अष्टादशोत्तरशततमोऽध्यायः ओम् अध्यायम् हण्ड्रेड् अण्ड् नैन्टीन् व्रत वक्ष्ये भुक्ति मुक्ति प्रदक अ भास्कर कन्या सदिभागे धीन अर्घ्यम दध्यादर्तिम संज्य वै मुने काश्यपुष्पमी कुंभे प्रदोषेत दध्यक्षताध्यूज्य उपोष्य फलपुष्पक पंचवर्णसमु हेमरौप्यसमन्वितम् सप्तधान्ययुगम् पात्रम् दधि चन्दनचर्जितम् अगस्त्यखनमानेधिमन्त्रेणार्घ्यम् प्रदापयेद हास पुष्पप्रदीपाश अग्निमारुदसम्भव मित्रावरुणयो पुत्रो कुम्भयोनि नमोऽस्तु दे शूद्रस्त्र्यादिरनेनैव त्यजे धान्यम् फलम् रसम् दद्याद्विजातये कुम्भम् स हिरण्यम् सदक्षिणम् भोजये च द्विजान् सप्तवर्षम् कृत्वा तु सर्वभाक इति श्रीगारूडे महापुराणे आचार ण्डे गस्त्यार्ख्य व्रतम् नामैकोन विंशत्युत्तरशतमोऽध्यायः ओ अध्यायम् अण्ड् श्रीगरुडमहापुराणम् हण्ड्रेड् अण्ड् ट्वेण्टि ब्रह्मोवाच रम्भातृतीयाम् वक्ष्ये च सौभाग्यश्रीसुधादित्माम् मार्गशीर्षे सिदे पक्षे तृतीयाय मुपोषिदः गौरीं यजेद् बिल्वपत्रैः कुशोदकरस्तदः कदम्बादौ गिरिसुधां पौषे मरुभकैर्यजेद कर्पूरादहृद कर्पूराधकृसरदो मल्लिकादन्तकाष्ठकृत माके सुभद्रां कल्हारैर्हृदाशो मण्डकप्रदः गीरिमयं दन्तकाष्ठं फाल्गुने गोमदीं यजेत कुन्दै कृत्वा दन्तकाष्ठं जैवाशष्कुरीप्रदः विशालाक्षीं दमनकैश्चैत्रे च कृसरप्रदः दधिप्राशो दन्तकाष्ठम् तगरं श्रीमुखीं व्यजेद वैशाखे कर्णिकारैश्च अशोकाशो वडप्रदः ज्येष्ठे नारायणी मर्च्चतपत्रैश्च कण्डदजः कण्डकण्डदः लवङ्गाशो भवेदेव आषाढे माधवीं यजेद तिलाशो बिल्वपत्र इष्टक्षीरान्नवदकप्रदः औदुम्बरं दन्तकाष्ठं पगर्या श्रावणे श्रियं दन्तकाष्ठं मल्लिकाया क्षीरदो ह्युत्तमां यजेद पद्मैर्यजेद् भाद्रपदे शृङ्गधाशो गृडादिदः राजपुत्रीम् चाश्वयुजे जपापुष्पैश्च जीरकम् प्राशयन्निचिनैवेद्यै कृसरैः पातिगे जादी जातिपुष्पै पद्मजाम् च पञ्चगव्याशनो यजेत कृदोदनं च वर्षान्ते सपत्नीकान् द्विजान्यजेद उमामहेश्वरं पूज्य प्रददाच्य गुडादिकं वस्त्रचत्र सुवर्णाद्यैरात्रौ च कृतजागरः गीतवाद्यैर्दधप्रदर्गवाद्यं सर्वमान् पुयाद इति श्रीगारूडे महापुराणे चारकाण्डे रम्भा तृतीया व्रतम् नाम विंशत्युत्तरशततमोऽध्यायः ओम् अध्यायम् हण्ड्रेड् अण्ड् ट्वेण्टि वन् ब्रह्मोवाच चातुर्मास्यव्रतान्यूचे एकादश्याम् समाचरेत आषाढ्याम् पौर्णमास्याम् वा सर्वेण हरिमध्य च इदं व्रदं मया देव गृहीतं पुरतस्तव निर्विघ्नं सिद्धिमाप्नोतु प्रसन्ने त्वयि केशव गृहीतेऽस्मिन् व्रते देव यद्यपूर्णे म्रियाम्यहं तन्मे भवतु सम्पूर्णं त्वत्प्रसादाज्जनार्दन एवमभ्यर्च्य गृह्णीयाद्व्रत व्रतार्चनजपादिकं सर्वाखं चक्षयं यादि चिकीर्षेद्योहरेर्व्रतं स्नात्वा योऽभ्यत्य गृह्ण्यायाद्व्रतार्चनजपादिकं स्नात्वा यच्चतुरो मासानेकभक्तेन पूजयेद विष्णुं स यादि विष्णोर्वलोकं मलविवर्जितं मध्यमांससुरा त्यागी पूजनाद वेदविद्धरिपूजनाद तैलवर्जिविष्णुलोकं विष्णुभाकृत्रपादकृद एकरात्रोपवासा च देवो वैमानिको भवेद श्वेदद्वीपं त्रिरात्रात् तु व्रजेत् षष्ठान्नकृन्नरः चान्द्रायणाद्धरेर्म धाम लभेन्मुक्तिमया चिदां प्राजापत्यं विष्णुलोकं परागव्रतकृधरिं सकृतयावकभिक्षाशीपयो दधिकृदाशनः गोमूत्रयावकाहारपञ्चगव्यकृदाशनः शाकमलफलाद्याशीरसवर्जो च विष्णुभाक् इति श्रीकारूडे महापुराणे आचार्यकाण्डे चातुर्मास्यव्रतनिरूपणं नाम काव्यशत्युत्तरशततमोऽध्यायः ओम् अध्यायम् 122 अण्ड् ट्वेन्टि टु ब्रह्मोवाच व्रतमासोपवासाख्यं सर्वोत्कृष्टं वदामि ते कुर्यान्मासोपवासकम् आश्विनस्य सिदे पक्षे एकादश्यामुपोषितः प्रथमेतत्तु गृह्णीयाद्यावत्त्रिंशद्दिनानि तु अद्य प्रभृत्यहम् विष्णो यावदुत्थानकम् तव अर्चयेत्त्वमनः श्रंस्तु दिनानि त्रिंशदेव कार्तिकाश्विनयोर्विष्णो द्वादश्योः शुक्लयोरकम् म्रिये यद्यन्तराले दुव्रतभङ्गो न मे भवेद हरिं यजोक्तृशवणस्नायी गन्धादिभिर्व्रती गात्राभ्यङ्गं गन्धलेवं देवतायतने त्यजेत द्वादश्यामथ सम्पूज्य प्रदद्याद्विजभोजनम् ततश्च पारणम् कुर्याद्धरेर्मासो भवासकृत दुग्धादिप्राशनम् कुर्याद् व्रतस्थो मूर्च्छितोन्तरा दुग्धाद्याैर्नव्रतम् नश्येद्भुक्तिमुक्तिमवाप्नुयाद इति श्रीकारूडे महापुराणे आचारकाण्डे मासोपवासव्रतनामद्वा विंशत्युत्तरशततमोऽध्यायः ओम् अध्यायम् हण्ड्रेड् अण्ड् ट्वेण्टि त्रि ब्रह्मो वाच व्रतानि कार्तिके वक्ष्ये स्नात्वा विष्णुं प्रपूजयेत् एकभक्तेन नक्देन मासं वा दुग्धशाखफलाद्यैर्वा उपवासेन वा पुनः सर्वपापविनिर्मुक्तः प्राप्तकामो हरिम् व्रजेद सदा हरिर्व्रतम् श्रेष्ठम् सदस्या दक्षिणायने चादुर्मास्ये ततस्तस्मात् कार्तिके भीष्मपञ्चकम् तत शुक्लस्य एकादश्याम् समाचरेद स्नात्वा त्रिकालं पित्रादीन्यवाद्यैरर्चयेद्धरिं यजेन्मौनीकृदाद्यैश्च पञ्चगव्येन वारिभिः स्नापयित्वा कर्पूरमुखैश्चैवानुलेपयेत् कृदाकृतगुगुलैर्धूपं द्विज पञ्चदिनं दहेद नैवेद्यं परमान्नम् तु जपेदष्टोत्तरम् शतम् ॐ नमो वासुदेवाय कृतव्रीहितिलाधिकम् अष्टाक्षरेण मन्द्रेण स्वाहान्तेन तु होमयेद् प्रथमे स्निहरे पादौ यजे पद्मैर्द्वितीयत बिल्वपत्रैर्जानुदेशम् नाभिम् गन्धेन चापरे कन्धा बिल्ल्वजवाभिश्च पञ्चमे स्नि शिरोर्चयेद मालत्या भूमिशायि स्याद् गोमयं च दधिक्षीरं पञ्चमे पञ्चगव्यगं नक्रं कुर्यात् पञ्चदश्याम्ब्रदि स्यात् भुक्तिमुक्तिभाग एकादशी व्रतम् नित्यम् तत्कुर्यात्तक्षयोर्द्वयोः अखौकनरकम् हन्यात् सर्वदम् विष्णुलोकदम् एकादशी द्वादशी च निशान्ते जत्रयोदशी नित्यमेकादशी यत्र तत्र सन्निहितो हरिः दशम्येकादशी यत्र तत्र स्ताश्चासुरादयः द्वादश्यां पारणकुर्यासूतके मृतके चरेद चतुर्दशीं प्रतिपदं पूर्वमिश्रामुपावसेद पौर्णमास्याममावास्यां प्रतिपन्मिश्रितां मुने द्वितीयां तृतीयामिश्रां तृतीयाञ्चाप्युपावसेद चतुर्ध्या सङ्गतां नित्यं चतुर्ध्यीं चानयायुधाम् पञ्चमीम् षष्ट्य संयुक्ताम् षष्ट्या युक्ताञ्च सप्तमीम् इति श्रीगारूडे महापुराणे आचार्यकाण्डे भीष्मपञ्चकादिव्रतम् नामत्रयो विंशत्युत्तरशततमोऽध्यायः ओम् अध्यायम् 124 अण्ड् शिवरात्रिव्रतं वक्ष्ये कथां वै सर्वकामदां यथा जगौरीभूदेशं पृच्छति स्म परं व्रतम् ईश्वरौ उवाच माघफाल्गुनयोर्मध्ये कृष्णायाद् चतुर्दशी तस्यां जागरणा रुद्रः पूजितो कामयुक्तो हरपूज्यो द्वादश्यामि केशव उपोषित पूजितः सन्नरगात्तर यत्तथा निषादस्सर्बुदे राजा पापी सुन्दरसेनकः स कुक्रुरयि समयुक्तो मृगान् हन्तुं गदः मृगादिकमस्सम्प्राप्य क्षुत्पिपा सार्दितो गिरौ रात्रौ तडागतिरेषु निकुञ्जे जाग्रदास्तिदः तत्रास्ति लिङ्गम् स्वम् रक्षन् शरीरम् चाक्षिपत्तदः पर्णानि चाप्तमूर्ध्नि लिङ्गस्यैव न जानतः तेन धूलिनिरोधाय क्षिप्तं नीरं च लिङ्गके शरप्रेमादेनैकस्तु प्रत्युधर पल्लवाद जानुभ्यामवनिम् गत्वा लिङ्गम् स्पष्ट्वा गृहीतवान् स्नानं स्पर्शनं च पूजनम् जागरो भवेत् प्रादुर्गृहागदो भार्या भुक्दवान भुक्तवान् काले मृदो यमभटैः पाश्यैर्बद्ध्वादुनीयते तदा मम गणैर्युद्धे जित्वा मुक्त्रीकृतः स च कुक्कुरेण सहैवाभूद्गणो मत्पार्श्वगोमलः एवमज्ञानदपुण्यञ्ज्ञानात् पुण्यमधाक्षयम् त्रयोदश्यां शिवं पूज्य कुर्यात्तनियमं प्रति प्रादर्देव चतुर्दश्यां जागरिष्याम्यहं निशि पूजादानं तपोहोमं करिष्याम्यात्मशक्तिदः चतुर्दश्यां निराहारो भूत्वा शम्भो परेहनि भोक्ष्येऽहं भुक्तिमुक्त्या अर्थं शरणं मे भवेश्वर पञ्चगव्यामृतैः स्नाप्य तत्काले गुरुम् श्रुतः ॐ नमो नमः शिवाय गन्धाः पूजयेद्धरम् तिलतण्डुलब्रीहींश्च जुहुयात् सकृदम् चरुम् हुत्वा पूर्णा हुदिम् दत्त्वा शृणुयात् बीजसत्कथाम् अर्धरात्रे त्रियामे च चतुर्थे च पुनर् पुनर्यजत मूलमन्त्रम् तथा जक्त्वा प्रभाते दुःक्षमापयेद अविघ्नेन व्रतम् देवत्वत्प्रसादान्मयार्चितं क्षमस्व जगदाम्नाथत्रैलोक्याधिपते हर यन्मयाद्य कृतम् यद् रुद्रस्य निवेदितं त्वत्प्रसादान्मया देवव्रतमद्य प्रसन्नो भव मे श्रीमन् गृहं प्रतिजगम्यदां त्वदालोकनमात्रेण पवित्रोऽस्मिन् संशयः भोजये ध्याननिष्ठांश्च वस्त्रच्छत्राधिकं ददद देवादिदेवभूदेश लोकानुग्रहकारक जन्मया श्रद्धया दत्तम् प्रियतां तेनमे प्रभुः युदिक्षामाप्य च व्रदी कुल्या द्वादश वार्षिकम् कीर्तिश्रीपुत्रराज्यादिप्राप्य शैवं पुरं व्रजेद द्वादशेषु अपि जागरं प्रकुर्यादिहजागरम् व्रदि द्वादशसम्भोज्य दीपदस्वर्गमाप्नुयाद इति श्रीकारूडे महापुराणे आचारकाण्डे शिवरात्रिव्रतं नाम चतुर्विंशत्युत्तरशततमोऽध्यायः ओम् अध्यायम् हण्ड्रेड् एण्ड् ट्वेण्टि फैव् पितामहः उवाच मान्धाता चक्रवर्त्या आसीदुपोष्य एकादशीं नृपः एकादश्यां न भुञ्जेदभक्षयोरुभयारवि दशम्यकादशीं मिश्रा गान्धार्या समुपोषिता तस्या पुत्रशतं नष्टं तस्मात् तां परिवर्जयेत् द्वादश्येकादशी यत्र तत्र सन्निहितो हरिः दशम्येकादशी यत्र तत्र सन्निहितोऽसुरः बहुवाक्यविरोधेन सन्देहो जायते यदा द्वादशी तु तदा ग्राह्यात्रयो दश्यान्दुपारणम् एकादशी कलाभिः स्यादुपोष्या एकादशी द्वादशी च विशेषेण त्रयोदशी त्रिमिश्रा सातिथिर्ग्राह्या सर्वपापहराशुभा एकादशी मुपोष्यैव द्वादशी मधवा त्रिमिश्रां चैव कुर्वेद न दशम्यायुदाङ्क्रजिद रात्रौ जागरणं कुर्वन् पुराणश्रवणं नृपः गदाधरं पूजयंश्च उपोष्यैका दशी द्वयं रुक्माङ्कदो ययौ मोक्षमन्ये चैकादशीव्रतम् इति श्रीकारुडे महा पुराणे आचारकाण्डे एकादशीमाहात्म्यं नाम पञ्चविंशत्युत्तरशततमोऽध्यायः ओम् अध्यायम् हण्ड्रेड् अण्ड् ट्वेण्टि सिक्स् ब्रह्मोवाच येनार्चनेन ना वैलोको जगामपरमां गतिं तमर्चनं प्रवक्ष्यामि भुक्तिमुक्तिकरम् परम् सामान्यमण्डलम् न्यस्य धातारम् द्वारदेशतः विधातारम् तथा गङ्गाम् यमुनाम् च महानदीम् द्वारश्रियम् च दण्डम् च प्रचण्डम् वास्तु पुरुषम् मध्ये चाधारशक्तिम् च कूर्मम् भूमिं धर्मं धर्मम् तथा ज्ञानम् वैराग्य धर्मादींश्च चतुरकन्धम् नालम् च पङ्कजम् कर्णिकाम् केसरम् सत्वम् राजसन्तामसम् गुणम् सूर्यादिमण्डलान्येव विमलाद्याश्च शक्तयः दुर्गम् गणम् सरस्वतीम् क्षेत्रपालम् च कोणके आसनम् मूर्तिमभ्यर्च्य वासुदेवं बलं स्मरन् अनिरुद्धम् महात्मानम् नारायण मथार्चयद हृदयादीनि चानि शङ्कादीन्यायुधानि च चा। ओ अध्यायम् 127 अण्ड् ट्वेण्टि सेवेन् ब्रह्मोवाच माघमासे शुक्लपक्षे सूर्यक्षेणयुधापुरा एकादशी तथा चैका भीमेन समुपोषिता आश्चर्यदुव्रतं कृत्वा पिदृणामनृणोऽभवद भीमद्वादशी विख्याता प्राणिनां पुण्यवर्धिनी नक्षत्रेण विनाप्येषा ब्रह्म हत्यादिनाशयेद विनिहन्ति महापापं कुनृपो यथा कुपुत्रस्तु कुलम् यद्वत्कुभार्या चपदिम् यथा अधर्मम् च यथा धर्मकुमन्त्री च यथा नृपम् अज्ञानेन यथा ज्ञानम् शौचमाशौचकम् यथा अश्रद्धया यथा श्रद्धा सत्यम् चैव नृतैर्यथा हिमम् यथोष्ण चार्थ संचयः यदा प्रकीर्तनाद्दानम् तपो वै विस्मयाद्यथा अशिक्षया यदा पुत्रो गावो दूरगतैर्यथा क्रोधेन च यथा शान्तिर्यथा वित्तमवर्धनाद् ज्ञानेनैव यथा विद्यानिष्कामेन यदा फलम् तथैव पापनाशाय प्रोक्तेयं द्वादशी शुभ ब्रह्मगत्यासुरापानं सेयं गुर्वङ्गनागमः युगपत्तु प्रजातानि न निहन्दित्रिपुष्करं न चापि क्षेत्रं कुरुक्षेत्रं प्रभासकं सकं यमुनागंगा यमुना गङ्गा न चैव सर्वतीर्थानि एकादश्याः समानिः न दानं न जपो होमो न चान्यत्सुकृतम् क्वचिद एकदपृथिवीदानमेकतो हरिवासरः महापुण्या इयमेकादशी वरा अस्मिन् वरागपुरुषम् कृत्वा देवम् तु हाटकम् कटोपरि कृत्वा वै ताम्रभाजने सर्वबीजभृदे विप्रासितवस्त्रावगुण्ठिते स हिरण्यप्रतिपाद्यै कृत्वा पूजाम् प्रयत्नदः वराहाय नमः पादौ क्रोडाकृदये नमः कडिम् नाभिम् गम्भीरकोषा उरश्रीवत्सदारिणे बाहुम् सहस्रशिरस्य ग्रीवाम् सर्वेश्वराय च मुखम् सर्वात्मने पूज्यं ललाडं प्रभवाय च केशाशतमयूखाय पूज्या देवस्य चक्रिणः विधिना पूजयित्वा तु कृत्वा जागरणम् निशि श्रुत्वा पुराणम् देवस्य माहात्म्यप्रतिपादकम् प्रादर्विप्राय दत्त्वा च याचकाय शुभाय पश्चात्तु पारणं कुर्यान्नादितृप्तः सकृद्व्रतः एवं कृत्वा नरो विद्यान्नभूयस्तनपो भवेद् उपोष्यैकादशीं पुण्याम् उच्यते वै ऋणत्रयाद वाप्ति कृत्वा सर्वव्रताधिकम् इति श्रीकारूडे महापुराणे आचार्यकाण्डे एकादशी महात्म्यं नाम सप्तविंशत्युत्तरशततमोऽध्यायः ओ अध्यायम् हण्ड्रेड् अण्ड् ट्वेण्टि ब्रह्मोवाचा व्रतानि व्यासवक्ष्यामि यायितुष्टः सर्वदो हरिः शास्त्रोदिदोहिनियमो व्रतं तच्च तपो मदम् नियमास्तु विशेषास्युव्रतस्यास्य दमादयः नित्यम् त्रिशवणम् स्नाया दधशयी जितेन्द्रियः स्त्रीशूद्रपतितानाम् तु वर्जयेदभिभाषणम् पवित्राणि च पञ्चैव ज्युहूयाच्चैव शक्तितः कृत्राण्येतानि सर्वाणि चरेत् सुकृतवान् नरः केशानां रक्षणार्थम् तु द्विगुणम् प्रथमाचरेद कांस्यम् माशं च चणकम् कोरदूषकं शाकं मधुपरान्नम् च वर्जयेदुपवासवान् पुष्पालङ्कारवस्त्राणि धूपगन्धानुलेपनम् उपवासेन दुष्येतु दन्तधावनमञ्जसं दन्तकाष्ठं पञ्चगव्यं कृत्वा प्रादर्व्रतं चरेद असकृज्जलवाना च ताम्बूलस्य च उपवासप्रदुष्येद दिवा मा सत्यम् दया दानम् शौचमिन्द्रियनिग्रहः देव पूजाग्निहवने सन्तोषोऽस्तेयमेव च सर्वव्रतेष्वयम् धर्मसामान्यो दशधा स्मृताः नक्षत्रदर्शनान्नक्दमनक्दम् निशिभोजनम् गोमूत्रम् च फल तु गोमयम् क्षीरम् सप्त फलम् दद्यात् दत्नश्चैव फलत्रयम् कृतमेकफलम् दद्यात् फलमेकम् कुशोदकम् कायत्र्या चैव गन्धेदि आप्यायस्व दधिग्रहः तेजोऽसीति देवस्य ब्रह्मकूर्चव्रतम् चरेद अग्न्याधानं प्रदिष्टान्तु यज्ञदानव्रतानि च कलाहा माङ्गल्यमभिषेकम् च मलमासे विस्वर्जयेत दर्शा दर्शस्य चान्द्रस्यात्रिंशाहोभिस्तु सावनः सौरो नाक्षत्रसप्तविंशतिः सौरोमासो विहायाय यज्ञादौ सावनस्थितिः युग्माग्नि युगभूतानि षण्मुन्येर्वसुरान्ध्रयोः रुद्रेण द्वादशी युक्ता चतुर्दश्याधपूर्णिमा प्रतिपद्यप्यमा वास्यातिथ्योर्मस्यं महाफलम् ये तद्व्यस्तम् महाघोरं हन्तिपुण्यम् पुराकृतम् प्रारब्धतपःसा स्त्रीणाम् रजोहन्याद्व्रतम् न हि अन्यायैर्दानादिकम् अन्या कुर्यात् कायिकम् स्वयमेव च क्रोधात् प्रमादाल्लोभाद्वा व्रतभङ्गो भवेद्यदि दिनत्रयम् न भुञ्जेत शिरसो मुण्डनम् भवेद असामर्थ्ये शरीरस्य पुत्रादीन् कारयद्व्रतं व्रतस्थम् मूर्च्छिदम् विप्रं जलादीन्न्युनुपायद इति श्री भारूढे महापुराणे आचार्यकाण्डे व्रतपरिभाषा नामाष्टाविंशत्युत्तरशततमोऽध्यायः ओम् अध्यायम् हण्ड्रेड् अण्ड् ब्रह्मोवाच वक्ष्ये प्रतिपदादीनिव्रता निव्यासशृण्द वैश्वानरपदं स्मृदं व्रतमिदं स्मृतं प्रतिपद्येकभक्ताशीसमाप्ते कपिला प्रदः चैत्रादौ कारये चैव ब्रह्मपूजां यथाविधि गन्धपुष्पार्चनैर्दानैर्माल्याद्यैश्च मनोरमैः सहो मयि पूजये देवम् सर्वान् काप्मानवाप्नुयाद कार्तिकेतसितेष्ठम्याम् पुष्पहारी च वत्सरम् पुष्पादिदादारूपेण रूपभागी भवेन्नरः कृष्णपक्षे तृतीयायाम् श्रावणे यजेद शून्यशय्यायाम् फलम् दद्याद्विजातये शय्याम् दत्त्वा प्रार्थये च श्रीधराय नमः श्रियैः उमाम् शिवम् हुताशम् च तृतीयायां च पूजयेत अविष्यमन्ननैवेद्यदेय दमनकम् तथा चैत्रादौ फलमाप्नोति उमया मे फाल्गुनादितृतीयां लवणं यस्तु वर्जयेत् समाप्ते शयनं दद्यागृहं चोपस्करान्वितं सम्पूज्य विप्रमिधनं भवानी लोगे गौरीलोकेवस्य नित्यं सौभाग्यकरमुत्तमं गौरीकाली उमाभद्रादुर्गा कान्तिसरस्वती मङ्गला लक्ष्मी, शिवा नारायणी प्रमाद मार्गे तृतीयामारभ्य अवियोगादिमाप्नुयाद माकादौ, निराहारो व्रतान्विदः दत्त्वा तिलांस्तु विप्राय स्वयं भुङ्े तिलोदकम् वर्षद्वये समाप्तिश्च निर्विघ्नादिं समाप्नुयात् गस्वाहा मूलमन्दोऽयं प्रणवेन समन्वितः ग्लैं ग्लां हृदये गां गीं हूं ह्रीं क्रीं शिरःशिखा गुं वर्म गों च गैं नेत्रं गों च आवाहनादिषु आगच्छोल्काय गन्धोल्कः पुष्पोल्को धूपकोल्कषः दीपोल्काय महोल्काय बलिश्चाध विसर्जनम् सिदे च गाय त्रीन्या सोऽङ्गुष्ठादिरीरिदः ॐ महाकर्णाय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्धिप्रचोदयाद पूजयत्तिलपोमैश्चये दे पूज्या गणस्तदा गणाय गणपतये स्वाहा कुष्माण्डकाय च अमोखोल्कायैक दन्ताय त्रिपुरान्तकरूपिणे श्याम दन्दविकरालास्याहवेपाय वै नमः पद्मदंष्ट्राय स्वाहान्ते मुद्रा वै नर्दनम् गणे हस्ततालश्च हसनम् सौभाग्यादिफलम् भवेद मार्गशीर्षे तथा शुक्लचतुर्ध्याम् पूजयेत् गण अबद्धम् प्राप्नोति विद्याश्री कीर्त्या सोमवारे चतुर्भ्याम् च सामो होश्यार्चयेद्गणम् जपन् जुहुव जपन् जुह्व स्मरन् विद्या स्वर्गम् निर्वाणदाम् व्रजेद विघ्नाचनेन सर्वान् स सौभाग्यमाप्नुयाद पुत्रादिकं दमनकैर पुत्रादिकम् दमनकैर्दमनाख्याश्चतुर्ध्यपि आम् गङ्गणपये गङ्गणपतये नमश्चतुर्ध्यन्तम् यजेद्गणम् मासे तु यस्मिन् कस्मिंश्चिद्युभूयाद्वा जपे स्मरेद सर्वान् कामान् अवाप्नोति सर्वविघ्नविनाशनम् विनायकं मूर्तिकाव्यम् यज्ञे देभिश्च नामभिः सोऽपि स्वर्गमोक्ष स्वर्गमोक्षसुखानि च गणपूज्यो वक्रतुण्डयकदं श्रीत्र्यम्बकम् नीलग्रीवो ल्यम्बोदरो विकटो विघ्नराचकः धूम्रवर्णो बालचन्द्रो दशमस्त दशमस्तविनायकः गणपतिर्हस्तिमुखोद्वादशारे यजेद्गणम् पृथक् समस्त मेधावी सर्वान् कामानवाप्नुयाद श्रावणे चाश्विने भाद्रे पञ्चम्याम् पार्तिके शुभे वा सुित्तक्षपश्चैव कालीयो मणिभद्रकः ऐरावतो धृतराष्ट्रकर्कोटकधनञ्जयौ हृदाद्यै स्नापि दाह्येते आयुरारोग्यसम्पदः अनन्दम् वा सु किम् शङ्खम् पद्मम् कम्बलमेव च तथा कर्काटकम् नागम् धृतराष्ट्रम् च शङ्खकम् कालीयम् तक्षकम् च इव पिङ्गलम् मासि यजेद् भद्रासिदे नागानष्टौ मुक्तिं दिवं द्वारस्यो भयदो लेख्या श्रावणेतु सिदे यजेद पञ्चम्यां पूजयन्नागाननन्तान्द्यान् महोरगान् क्षीरं सर्पिश्च नैवेद्यं देयं सर्वविषापहं नागा अभयहस्ताश्च दष्ट ष्टोद्धारादु पञ्चमी इति श्रीगारूडे महापुराणे आचार्यकाण्डे दष्टोद्धारपञ्चमव्रतं नामैकोनत्रिंशोत्तरशततमोऽध्यायः ओ अध्यायं हण्ड्रेड् अण्ड् तर्टि ब्रह्मोवाच एवं भाद्रपदे मासि कार्तिकेयं प्रपूरयेत् स्नानदानादिकं दा। सर्वमस्यामक्षय्यमुच्यते भोज्यं विप्रान्न्रविं व्यजेत ॐ ककोल्कायमृतत्वं प्रिय सङ्गमो भव अष्टम्यां पारणं कुर्यान्मरीचं प्राश्य स्वर्गभाक सप्तम्यां नियत पूजयित्वा दिवाकरं दद्याद्फलानि विप्रेभ्यो मार्दण्ढप्रीयतामिति खर्जूरं नारिकेलं वा प्राशयेन्मा दुर्लुङ्कं सर्वे भवन्तु सफला मम कामा समं सम्पूज्य सप्तम्यां पायसेनाथ भोजयेत् विप्रांश्च दक्षिणां दत्त्वा स्वयं चादपयः पिबेद भक्ष्यम् चोष्यम् तथा लेह्यम् ओदनम् चेदि कीर्तितम् धनपुत्रादिकामस्तुत्यजे देदधनोदनः वाय्वाशी विजयेत्क्षुच्च कुर्या द्विजय सप्तमीम् अद्यादर्कं च कां मे चुरुपवासे तरेन्मदम् गोधूममाश्रयवषष्ठिककांस्य पात्रम् पाषाणपिष्टमधुमयीषुनमध्यमांसम् अभ्यञ्जनाञ्जनतिलांश्च शिदं। भवदि सप्तसु सप्तमीषु इति श्रीकारूडे महापुराणे आचारकाण्डे सप्तमीव्रतनिरूपणम् नाम त्रिंशोत्तरशततमोऽध्यायः ओम्